नारदपुराणं पूर्वार्थम् अध्यायम् फिफ्टि टु स्तनन्दन उवाच अधव्याकरणं वक्ष्ये संक्षेप तव नारद सिद्धरूपप्रबन्धेन मुखं वेदस्य साम्प्रतं सुप्तिङ् पदं विप्र सुपां सप्तविभक्तयः सौ जप्रथमा प्रोक्ता सा प्रातिपदिकात्मिका सम्बोधने कर्तरी लिङ्गादावुक्ते कर्मणि कर्तरि अर्धवत्प्रातिपदिकं धादु प्रत्ययवर्जितम् अमौ सस्योद्वितीया स्यात्कर्म क्रियते च य द्वितीया कर्मणि प्रोक्तान्तरान्तरेण संयुधे दाभ्यां हि शस्त्रीया सस्तृतीया स्यात्परणे कर्तरीरिता येन क्रियते तत्करणं सकर्ता स्यात्करोदियःभ्याभ्य सश्चतुर्थो स्यात् सम्प्रदाने चकारके यस्मै दिक्षा धारये द्वै रोचते सम्प्रदानकं भ्यो स्यान् ङसिभ्यां ह्योह्यपाद्येन चकारके समादत्ते अपदत्ते चयं यतः हसोऽसामश्चषष्ठी स्यात् स्वामिसम्बन्धमुख्यहे ञसुपसप्तमी तु स्यात् चाधि चाधिकरणे भवेद् आधारे चापि विप्रेन्द्ररक्षार्थानां प्रयोगतः ईप्सितं चानीप्सितं यत्तदपदानकं स्मृतं पञ्चमी कर्यणं योगे इदर्थेऽन्यदिङ्मुखे येतैः योगे द्वितीया स्यात् लक्षणे धं भूतोभिरभागे चानुपरिप्रति अन्तरेषु सहार्थे च हीने ह्युपश्च द्वितीया चा च चतुर्थी स्यां चेष्टायां गतिकर्मणि अप्राणिषु विभक्ति द्वे मन्यकर्मण्यनादरे नमः स्वाहा लं वषद्योग्य ईरिदः चतुर्थी चैव तादर्थ्ये मर्थाद् भाववाचिनः तृतीया सह योगे स्यात्कुत्सितेङ्गे विशेषणे काले धावे सप्तमी स्यादे तैर्योगे च षष्ट्यपि स्वामीश्वरोऽधिपदिभिः साक्षिदायाधसूतकैः निर्धारणे द्वे विभक्री षष्ठी हेदुप्रयोगके स्मृत्यार्थकर्मणि तद्धा करोते प्रदियत्नके हिंसार्थानां प्रयोगे च कृधिकर्मणि कर्तरि न कर्तृकर्मणो षष्ठी निष्ठादिप्रतिपादिका यदा ये येदावै द्विविधाज्ञेयासु बादिषु विभक्त्रिषु भुवादिषु हिन्देषु लकारादश स्मृताः तृप्तः सन्ति प्रथमो मधमःसिप्तस्तोत्तमः मिवस्मसः परस्मैदु पादानां चापनेदमं त आदे प्रथमो मध्वः से आदेध्वे तथोत्तमः ये वहे महादेश ज्ञेयाह्यन्ये लिङ्गादिषु नाम्नि प्रयुज्यमाने दुःप्रथमपुरुषो भवेद् मध्यमो युष्मदिप्रोक्त उत्तमः पुरुषोऽस्मदि भूवाद्याद्धातवः प्रोक्तास्सनाद्यन्तास्तद्धा ततः लडीरितो वर्तमाने भूधे नद्यतने तथा मा स्मयोगे च लङ्वाच्यो लोडाशिषि च धातुः विद्यादौ स्यादाशिषि च लिङ्गिदोद्विविद्धो मुने लटति दे परोक्षे स्वस्तने लुङ् भविष्यति स्यादनद्यतडे लडूच भविष्यदि भूदे लुङ्पस्यपौच क्रियायां लुङ् सिद्धो सिद्धोदाहरणं विद्धि संहितादिपुरस्सरं दं दाग्रं च दधीतं च मधुदकं पित्रर्षभः होदृकारस्तदासेयं लाङ्गलीशामनीषया गङ्गोदकं तवत्कार ऋणार्णं च मुनीश्वर शिदार्तश्च मुनिश्रेष्ठ सेन्द्रसौकार इत्यपि वध्वासनं पित्रार्थो नायको लवणस्तथा त आद्या विष्णवेह्यत्र तस्मार्को गुरा अधः हरेव विष्णो वेद्य शदसोमादव्यमी अधः शौरी ये तौ विष्णु इमौ दुर्गे अमूनो अर्जुनः आ एवं जप्रकृत्यैदे तिष्ठन्ति मुनिसत्तमषडत्र षण्मातरश्च वाक्चुरो वाग्दश्रुधा हरिष्येदे विभुश्चिन्त्यस्तच्छेषो यञ्चरस्तथा प्रश्नस्त्वथ हरिषष्ठकृष्णष्ठीगद इत्यपि भवान् षष्ठश्च षड् छन्दषट्टे तल्लेप एव चक्रेश्चिन्दिभवान् चौरिर्भवान् चौरित्यपि सम्यङ्गनं त्वङ्गच्छाय कृष्णं वन्दे मुनीश्वर तेजांसि मंस्यदे गङ्गा हरिश्चेत्ता मरशिवः रामकाम्यः कृपः हरिपूज्योर्च्य एव रोमो दृष्टो बला अत्र इष्टा यिष्ठा इमायदः विष्णुर्नभ्यो रविरयङ्गी फलं प्रादरच्युदः भक्तैर्वद्योऽप्यन्तरात्मा भोभो येष हरिष्टथा येष शार्ङ्गी सैष रामस्संहित्रैवं प्रकीर्तिदा रामेणाभिहितं करोमि सततं रामं भजेत् सादरं रामेणापहृतं समस्तदुरितं रामाय तुभ्यं नमः रामान्मुक्तिमभीप्सिदा मम सदा रामस्य दासोऽस्म्यहं रामे रञ्जत्मे मे मनःसुविशदं हे राम तुभ्यं नमः सर्व इत्यादिका गोपासका चैव पतिर्हरिः सुश्रीर्भानुस्वयम्भूश्च कर्तारौ गौस्तु नौरिति अनङ्घान् गोधुग्लुश्च द्वे राजा पन्थास्तथा दण्डिब्रह्म ब्रह्महा चाष्ट अष्टौ अयं मुने सम्राट् स प्रत्यं पुमान् महान् धीमान् विद्वान् षट् दो पीपटश्च दोः पिपिटीश्च पी पी पी दोः उशनास विमे पुंसिरक्तलरविकामकाः उशना सा विमे पुंसिष्यारक्तलविरामकाः राधासर्वा गदीर्गोऽपि श्रीश्रीर्धेनुर्वाधु स्वसा गौ णौ रूपान् दू द्यौर्गोः क्षुकुप्संतुवा कुचित ऋग्विडुद्भाश्रियास्तभकुलं सोमपामाक्षि मा ्रामण्यम्बुरवडत्येवं कर्तृचादिरिवातिनु स्वनहुच्च विमलद्यो वाश्वत्वारिदमेव च एतद्ब्रह्मासश्च दण्डी असृ किञ्चित्यदाति च गवां गो अगों गो गों तेल्यज्ञकृच्चकृच्चैव ददद्भवत्पचत्तु ददीव्यधनश्च पिपठी पयोदसुमुमांसि च गुणद्रव्यक्रियायोगां श्रीलिङ्गांश्च कदिब्रुवे शुक्रकिलालपाश्चैश्च पाश्चैव शुचिश्च ग्रामणि सुधीः पडुस्वयम्भूकर्ता च चा, मादा चैव वा पिता च न सत्यानाज्ञास्तधापुंसो मदभ्रमरदीर्घपादधनाकृसोमौ चागर्हस्थ विर्ग्रथा स्वर्णन्बहु रेमभाग्द्वीक्षाद्वजादानहो तथा सर्वं विश्वो भयेतोभौ अन्यान्तरेत्तराणि च उत्तरश्चोत्तमो नेमस्त्वसमूधसमायुषः पूर्वोत्तरोत्तराश्चैव दक्षिणश्चोत्तराधरौ अपरश्च दुरोग्येदाद्यावत्तत्किमसौ नोरकधिपयो द्वे जत्रयो शुद्धदयस्तथा स्वेपा भुविरोद्धपरिविपर्ययश्चव्ययास्तथा तद्धि ताश्चाप्यपत्यार्थे पाण्डवाश्रयिधरस्तथा भार्यो नाडायनात्रयौ ाङ्गेयः पैदृष्वश्रियः देवतार्थे चेदमर्थे हैद्रं ब्राह्मो कविर्बलिक्रियायुध्यो कर्मकर्त्रोर्धैर्यकौङ्गुमं तथा भवाद्यर्थे कानिनः क्षत्रियो वैदिकस्वकः स्वार्थे चौरस्तुतुल्यार्थे चन्द्रवन्मुखमीक्षते ब्राह्मणत्वं ब्राह्मणताभावे ब्राह्मण्यमेव च गोमान्धनीजधनवानस्त्यर्थे प्रमिदौ गियान् जादार्थे तुन्दिल श्रद्धालुलुरन्वन्नत्येतु दन्तुरः स्रग्वितपस्वी मेधावी मायाव्यस्त्यर्थ एव च वाचालश्चैव वाचाटो बहु कुत्सिदभाषिणि ईश्वदपरिसमाप्तौ कल्पौ देशीय एव च कविकल्प त्वक् कविदेश्यप्रकारवचने तथा पडुजाधीयकुत्सायां वैद्यपाशप्रशंसने वैद्यरूपो भूतपूर्वे मदो दृष्टचरो मुने प्राजुर्याद्विश्वन्नमयो मृण्मय श्रीमयस्तथा जादार्थे जिदोत्यर्चे जितो श्रेयान् श्रेष्ठञ्च नारदः कृष्णतरशुक्लतम किम् आख्यानदो व्ययान् किं तरां परिमाने परिमाणे जान। जानुद्वय जानुद्वयसमित्यपि जानुमात्रं च निर्धारे बहूनां च द्वयोक्रमादकदमकदरसङ्ख्येयविशेषावधारणे द्वितीयश्च तृतीयश्च चतुर्धष पञ्चमौ एतादशकधिपयः कदिकदिनारद विंशश्च विंशतितमस्तथा शततमादयः द्वेधा द्वैधा द्विधा सङ्ख्या प्रपारेध मुनीश्वरक्रियावृत्तौ पञ्चकृत्वो द्वि श्रेर्बहुश इत्यपि द्वित्रयं त्रितपं चापि संख्यायां हि द्वयं त्रयम् कुडीरश्च शमीरश्च शुण्डारोल्पार्थके मदः त्रयिणः पौष्णस्तुण्डिभिश्च तुण्डिभश्च वृन्दादकृषीवलौ मलिनो विकटो गोमी विधमुत्कडं अवडीडो वनाडे निबिडम् चेक्षु चाकिनम् निबिरी समेषु कारी पितो विद्याञ्चनस्तथा विद्याधुं चूर्बहुदिदं पर्वतशृङ्गिणस्तथा स्वामी विषमरूप्यं चोपत्यका चोपत्यकाधित्यका तथा चिल्लश्च चिपिटं चिह्म् दुलकुतपस्तथा वल्लस्वहिमेलुश्च कहोडश्चोपटस्ततः पूर्णायुश्च मरुतश्चैकाकी चर्मण्वदी तथा ज्योत्स्नातमिस्राष्ठीवच्च कक्षी वद्य सं दीवं जचक्रीवतूष्णीकं जल्पतक्यपि कम्भश्च कंयुः कम्भश्च कम नरकेदी कन्दु कन्दकम्पौ शम्भस्तथैव च शं तच्छं थिशं यशं दौ शं शुम्भं युवद भवद्गभूव भविधा भविष्यदि भवत्व भवद्भगवेच्चापि भूयादभूत भविष्यल्लादवेदानि रूपाणि अतिजखासाता च त्यक्त्वा दद्याद्विरक सदास्यद जुहिदो जुहव वा, जुहवाञ्चकार ओदाहोष्यदि जुहोदु अजुहो जुहुयाद्धु यादहौषी या दहोष्य दीवदी दिदेव देविदा देवीष्यति च अदिव्यद् दिव्ये दिव्याद्वै अदेवि ददेवीष्यत् सुनोदि सुषावसो दासोष्यदि वै सुनो त्व सुनोत् सुनुयात् सुयादशा विदशोऽुत्तु दधि च तु दो दतोत्तत्स्यदि तुदत्व तु दत्तु दे तुद्याद्धि अदौसि ददौत्स्यदिति जणद्धि रुरोदरोधा रोत्स्यदि वै रुणद्धु अरुणदृध्या तरौसि तनोदि ततनतनितातनिष्यदि तनो त्वतनोत्तनुयाद्धि आतनीञ्चातानि ततनिष्यत्क्रीणादि चिक्राय क्रेदाक्रेष्यदि क्रीणात्विति च अक्रीणात् क्रीणात् क्रीणीयात् क्रिया दै क्रैषीद क्रेष्यं चोरयदि चोरयामास चोरयिद चोरयिष्यदि चोरयतु अचोरयं चोरये चोर्यात् अचोचोरद चोरिष्यदित्येवं दशवैगुणः प्रयोजके भावयदि शायां बुभूषदि क्रिया समी पंडित बोभूये मुने तथा लुगि बोभवी जट्युत्रीम चायाँ तथा चारे नारद अनुद्चिद धाधो क्रियाविनिमये तथा निवेश्यादेस्तथाभिप्रजानीह्यात्मनेपदं परस्मैपदमाख्यादं शेषात्कर्तारि शाब्दिकैः णिरिचेतश्च उभे यक्ष स्याद्भावकर्मणोः सौकर्यातिशयं चैव यदा मुने विवक्षदे नव्यापारो व्यापारो लक्ष्ये कर्तुस्तथा परे लभं ते कर्तृते पश्य पच्यदे ह्योदनस्वयं साधु वासिश्चिनत्येवं स्थाली पचति वै मुने धादो सकर्मका भाव कर्मण्यपि प्रत्यक्रभा कर्तरी कीर्ति फलव्यापरिष्टताकर्मक धादुस्तोधर्मी भेदे सकर्मक उदाहृद गौणे कर्मणि द्रुह्यादेः प्रधाने निहृहृष्वहा बुद्धिभक्षार्थयोः शब्दकर्मकाणां निजे कर्मकानां निजेचया प्रयोज्य कर्मण्यन्येषां नन्त्यानां। लादयो मदाः फलव्यापारयोद्धादुराश्रयेदु तिङस्मृताः फले व्यापारस्तिं रथस्तु विशेषणं येधि मे धनीयमिति कृत्ये निदर्शनं भावे कर्मणि कर्तरिकीर्तिता का कर्ताकारक इत्याद्या भोधे भोधादिकीर्तितं गम्यादिगम्य निर्दिष्टं शेषमद्यतने मदम् आधिश्रित्यव्ययीभावे यथा चक्रिचकीर्तितं रामाश्रितस्तत्पुरुषोध्यानार्थो यूपदारु च व्याक्रभिराजमुरुषोक्षशाण्डो द्विगुरुच्यते पञ्चगव्यं दशग्रामी त्रिफलेऽधितः नीलोत्पलं महाषष्टितुल्यार्थे कर्मधारयः अब्राह्मणो ननि प्रोक्त कुम्भकाराधिककृताः अन्यार्थे तु बहुव्रीहौ ग्रामप्राप्तोदको द्विज पं च गूरूपवद्भार्यो मध्याह्नसुतादिकः समुच्चये गुरुं चेश्यं भजस्वान्वाचयेत्त्वट क्रमाद भिक्षा मानयगां चापि वाक्य मे वानयोर्भवेद् इतरेतरयोगे तु रामकृष्णौ समाहृतौ राम द्विजद्वै द्वै ब्रह्मचैकमुपास्यते यदि श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने द्वितीयपादे व्याकरणनिरूपणं नाम द्विपञ्चाशत्तमोऽध्यायः ओम्